अथ तृतीयाष्टके चतुर्थप्रश्नः प्रारम्भः ब्रह्मणे ब्राह्मणमालभते क्षत्राय राजन्यम् वरदध्या वैश्यम् तमसे शोदनम् तमसे तस्करम् नारकाय आत्मने क्लेवं आक्रयाय योगो कामाय वृश्चलोम् अतिकृष्टाय माघम् गीताय सोतम् तत्ताय शैलोषम् धर्माय सखाचरम् धर्माय रेभम् नरिष्ठायै विमलम् रसायकारिम् आनन्दाय श्रीशखम् प्रमुदेकुमारीपुत्रम् मेधायै रथकारम् धैर्यायदक्षाणम् श्रमाय कौलालम् मायायीकारमारम् शोभाय मणिकारम् शुभे श्रव्यायायिषुकारम् हेत्यै धन्मकारम् कर्मणेत्याकारम् इष्टाय रज्जसर्गम् मृत्यवे मृगयुम् मुझ्य। कन्तकाय स्मरितम् सन्धये दारम् केशायोपगतिम् निरृत्यैपरिवित्तम् आर्त्यैपरविधानम् हराध्ये चोपदिम् पवित्राय भिषजम् प्रज्ञानाय नक्षत्रदर्शम् निष्कृत्यैपेसस्कारी पलायोपदाम् अर्णायानोरुधम् ्याघ्रायर्मदम्भ्यवन्नतम् सर्वासराभ्यो जनेभ्यो प्रतिपदम् सवेभ्यश्चर्यगायाचितवम् पिशाचेभ्योऽपिदलकारम् यादुधानेभ्यः कण्टककारम् प्रसादेभ्यः कृद्यम् प्रमुदेवामनम् तार्भ्यः श्रमम् स्वप्नायान्धम् अधर्माय बधिरम् आशिक्षायै प्रश्नम् मर्यादायै प्रश्नविवाहम् प्रत्यहत्याय भीषणम् अवद्रष्टाय सङ्ग्रहीतारम् फलायानुचरम् होम्नयपरिष्कन्दम् प्रियाय प्रियभाजिनम् हरिष्ट्याश्वसादम् मेधाय वासः रचयित्री हायिदार्वाहारम् कृतायाग्ने विष्टभाय पात्रनिर्णेकम् एव लोकाय पेषितारम् मृष्टिलोकाय प्रकल्तारम् सर्वेभ्यो लोकेभ्योपसेक्तारम् अवर्त्यपवन्थितारम् लोकाय य सुराकारम् भत्राय गुरभम् श्रेयसेवित्वधम् हद्रक्षायानुक्षतारम्पम् क्रोधाय निसरम् शोकायाभिसरम् कोलविकोलाभ्याम् योगाय योक्तारम् क्षेमाय विमोक्तारम्नस्कृतम् श्रीरायाञ्जनीकारम् निर्वृज्जयकोशकारीयमसूम् अधर्मभ्यावलोकाम् संवत्सराय परिहारिणीम् निवत्सराय विजाताम्सरायुस्कत्वरीवत्सराय अतीध्वरी वत्सराय लिग्नीयव नवम् अन्यतोरन्यायदापम्बलाभ्यौष्फलम् आर्याय किम् अवार्याय मार्गालम् तीर्थेभ्य आन्दम् विषमेभ्यो मैनालम् स्वनेभ्यपर्णकम् गुहाभ्यकिरातम् सानुभ्यो जम्भगम् पर्वतेभ्यः पर्वते किम्बोरुषम् ीणावादम् वाक्रन्दाय दुन्दुभ्याघातुम्पराय सङ्खधम् पृथुभ्यो जनसन्धायम् भूक्तै जागरणम् अर्णाय हिरण्यकारम् ीणापादङ्गणकम् गीताय ध्यातशेषाल्याम् धर्माय भद्रवतीम् पाणिसङ्घातम् नृत्वाय मोदायानुक्रोशकम् आनन्दाय तलवम् अक्षराजाय कृतवम् भाविम्णाभ्याम् रागामृगम् अतिष्ठते भूमिपीठमालभते कर्णयम् स्थलम् अन्तरिक्षायत्रिम् दिवेकलतिम् सूर्यायक्षम् चन्द्रमसे मिर्मिरम् वृक्षत्रेभ्यम् अन्ये शुक्लम् मिङ्गलम् पात्रे कृष्णम् बिङ्गाक्षम् आर्य पुरुषमालभते काणमपानम् यानमदानगोसमानन्दावायिवे दा सूर्याय चक्षुरारभते मनश्चन्द्रमसेभ्यश्वात्रम् प्रजापदये पुरुषम् अधैतानरूपेभ्य आरभते अजत्रीम् अधिकृषमचोसलम् अतिशुक्रमधिकृष्णम् अतिश्लक्ष्णमतिष्टके चतुर्थः प्रश्नः समाप्तः